नमो नमः स्वागतं सर्वेषां नमो नमः भगिनी नमो नमः नमस् सर्वे नमस्कारः अस्तु आरम्भं कुर्मः वीणा भगिनी आरम्भं करोति वा प्रार्थनया हरिः ओम् वक्रतुण्डमहाकाया कोटिसूर्यसमप्रभा निर्विघ्नम् कुरु मे देव सर्वकार्येषु सर्वदा सरस्वति नमस्तुभ्यम् वरदे कामरूपिणि विद्यारम्भम् करिष्यामि सिद्धिर्भवतु मे सदा शान्तारम् भुजगशयनम् पद्मनाभम् सुरेशम् विश्वाधारम् गगनसदृशम् मेघवर्णम् शुभाङ्गम् लक्ष्मीकान्तम् कमलनयनम् योगिहृद्यानगम्यम् वन्दे विष्णुम् भवभयहरम् सर्वलोकैकनाथं हरिः ओम् श्रीकृष्णाय हरि ओम् धन्यवादाः नमस्कारः अधुना अस्माकं नूतनः पाठः नूतनः पाठः अधुना तस्य अध्ययनम् वयम् आरम्भम् कुर्मः तत्र सप्तम्यन्तं पदम् गतसप्ताहे वयं दृष्टवन्तः तत् कदा इति प्रश्ने सती कथं सप्तम्यन्तं पदम् उपयुज्य उत्तरं सम्भवति एतत् सर्वम् अधुना नूतनः पाठः अस्ति श्वः पश्यन्तु अद्य श्वः परश्वः प्रपरश्वः यः परय्यः प्रपरयः इति विषयः अस्तु राधा भगिनि अद्य अद्य बुधवासरः अस्ति एवं खलु अद्य बुधवासरः अस्ति श्वः श्वः गुरुवासर श्वः गुरुवासर भविष्यति भविष्यति गुरुवासरः भविष्यति अस्तु परश्वः परश्वः शुक्रवासर भविष्यति प्रपरश्वः प्रपरश्वः शनिवासरः भविष्यति अस्तु अधुना यः कः दिनः आसीत् ह्यः मङ्गलवासरः आसीत् परह्यः परह्यः सोमवासर आसीत् प्रपरह्यः प्रपरह्यः भानुवासरः आसीत् भानुवासर आसीत् अस्तु अधुना तत्र कदा इति उपयुज्य यदि अहं प्रश्नं करोमि तदा हा धन्यवादः धन्यवादः भगिनी धन्यवादः गीताञ्जलिभगिनी गीताञ्जलिभगिनी श्रूयते वा हा गीताञ्जलि भगिनी हा बुधवा बुधवासरः कदा अस्ति अद्य अस्ति भगिनी बुधवासरः अद्य अस्ति सम्यक् मङ्गलवासरः कदा आसीत् यः आसीत् भगिनी सम्यक् यः मङ्गलवासरः सम्यक् परह्यः क्षम्यतां सोमवासरः कदा आसीत् सोमवासरः परह्यः आसीत् परह्यः आसीत् रविवासरः कदा आसीत् रविवासरः प्रपरह्यः आसीत् सम्यक् अधुना गुरुवासरः कदा भविष्यति गुरुवासरः श्वः भविष्यति शुक्रवासरः कदा भविष्यति शुक्रवासरः परश्वः भविष्यति पर शनिवासर योग्यं शनिवासरः कदा भविष्यति शनिवासरः प्रपरश्वः भविष्यति भविष्यति उत्तमम् अधुना अस्ति आसीत् अधातोः भूतकालरूपं यः परयः प्रपरयः कृते अस्ति भविष्यति इति रूपं श्वः परश्वः प्रपरश्वः कृते अधुना पठनं कुर्मः अस्माकम् उत्तमः तत्र पाठः अस्ति अद्यदिनस्य श्वः तस्य जयः इति अस्ति अहं स्क्रीन् शेर् करोमि बहु समीचीनं तत् अस्ति लेखनं तत्र गच्छामः पुस्तकं प्रति पठामः श्वः कस्य जयः इति पाठः गीतासोपानं mm. श्वः कस्य जयः इति एकविंशतितमं पाठम् एकविंशति इति श्वः कस्य जयः किञ्च आरम्भं कुर्मः भारतमहोदय भवान् आरम्भं करोति वा भगिनिमः नमो नम्म नमः पठतु नम्म अद्य श्वः परश्वः प्रपरश्वः ह्यः परह्यः प्रपरह्यः hmm. अद्य सोमवासरः ओके ह्यः रविवासरः hmm. श्वः मङ्गलवासरः hmm. परह्यः शनिवासरः परश्वः बुधवासरः प्रपरह्यः शुक्रवारसः प्रपरश्वः गुरुवासरः <laughs> तत् वयं दृष्टवन्तः अधुना okay. अग्रिमे अपि पठतु प्रथमं परिच्छेदं पठतु एतत् प्रसङ्गं तत् किं दृश्यते वा एतं प्रसङ्गम् उच्चैः पठतः कुरुक्षेत्रे युद्धं प्रवर्तमानम् एव अस्ति अस्ति कौरवान् कौरवाणां पाण्डवानां च पक्षे थाः रथिकाः योधाः अनेके मृताः सहस्रशः सैनिकाः मग्नावयवाः जाताः कणः अपि हतः योध षोडश षोडशः दिवसः चिन्ताकुलः युधिष्ठिरः एवंदति पर्याप्तम् धन्यवादः धन्यवादः अत्र प्रसङ्गः कः अस्ति सर्वे श्रुण्वन्तु तत्र श्वः कस्य जयः इति विषयः इत्युक्ते तत्र अधुना युद्धं प्रवर्तमानमस्ति युद्धं चलति इति एतस्मिन् प्रसङ्गे इति युद्धप्रसङ्गः तत्र वर्णितः अस्ति युद्धं युद्धं प्रचलति प्रवर्तमानम् अस्ति तदा किम् अभवत् षोडशः दिवसः युद्धस्य षोडशः दिवसः षि सिक्स्टीन्थ् डे इति हा अधुना महाभारतकाले यत् युद्धप्रसङ्गं जातं कति दिन यावत् तत् युद्धप्रसङ्गमभवत् युद्धप्रसङ्गस्य कति दिनाः कति दिनाः अथारः आम् अष्टादश सम्यक् अष्टादशदिनाः आम् आम् शेह शेह। 16th षोड़ दिवस है गोयिंग गॉन् प्रवर्तमनमस्त अुद्ध सधुना पूर्वपीठि का हाँ युद्धम तत् चलती कौरवाण च पक्षे महारा रथि अनेके अनेता रथिकाः इत्युक्ते किं भारतमहोदय रथिकाः रथमित्युक्ते रथ, कः रथ, रथं चालयति रथिकाः तत्र रथिका स्यन्दनम् इति प्रतिशब्दं तत्र स्यन्दनं रथिकाः हा, हा योधाः इत्युक्ते ये जनाः युद्धं कुर्वन्ति ते सर्वे योद्धाः ते सर्वे मृताः हा, हा अत्र पश्यन्तु कौरवाणां पक्षे अपि पाण्डवानां पक्षे अपि द्वयोः तत्र नरसंहारं जातम् न केवलं नरसंहार तत्र अश्वानामपि अनन्तरम् अन्य प्राणिनामपि तत्र सर्वे अभवत, हो हो तत्र मृताः हानिः अभवत् द्वयोः पक्षयोः हानिः तत्र सहस्रशः सैनिकाः भग्नावय भग्नावयवाः जाताः स्वशब्दैः भरतमहोदय वदति वा भग्नावयवाः इत्युक्ते न जानामि भगिनि हा अत्र भग्न इत्युक्ते किं भवान् जानाति भग्न भग्न इत्युक्ते ब्रोकन् यस्य अखण्डत्वं नास्ति भग्नम् अनन्तरम् अवयवः इत्युक्ते तु बाडि पार्ट्स् इति अवयवाः बाडि पार्ट्स् तत् सहस्रशः सैनिकाः मेनि आफ् देम् दे आर् वे इन्जुर्ड् वेरि बेड्ली सहस्रशः सैनिकाः भग्नावयवाः जाताः यत्र हा, युद्धस्य हानि अत्र वर्णितः अस्ति वर्णिता युद्धस्य हानि सहस्रशः सैनिकाः दयनीय अवस्था भग्नावयवाः जाताः कर्णः अपि हतः कर्ण इत्युक्ते कः महोदय पाण्डवः तत् परन्तु दौर्भाग्य तस्य दौर्भाग्यवशात् सः कौरवाणां पक्षं स्वीकृतवान् आसीत् दुर्योधनस्य सः मित्रम् इति सः तेन एव तत्र घोषितमस्ति अहं दुर्योधनस्य मित्रम् अस्मि इति तत्सर्वं कर्णः अपि हतः महोदय भवान् जानाति वा कर्णः केन हतः कुन्ति कुन्ती कुन्तीयाः पुत्र हा परन्तु कर्णः हतः कर्णः केन हतः अर्जुनस्य बाण अर्जुनस्य बाणेन कर्णः हतः सत्यं सत्यं युद्धस्य षोडश दिवसः अस्ति अद्य युद्धस्य प्रसङ्गः कः अद्य प्रसङ्गः अस्ति अद्य दिनस्य अस्ति युद्धस्य षोडशः दिवसः चिन्ताकुलः युधिष्ठिरः एवं विषिदति विषाद इत्युक्ते किम् भारतमहोदय विषा विषिदति विषादं करोति इति इत्युक्ते किम् चिन्तनी चिन्ता सत्यं सत्यं सत्यम् अत्र पश्यन्तु सर्वे अष्टादश अध्यायेषु प्रथमः अस्ति अर्जुनविषादयोगः अर्जुनविषादयोगः इत्युक्ते दुःख दुःख दुःखावस्था अर्जुनस्य तद्दुःखं कथमस्ति अर्जुनस्य तत्र अर्जुनः भीतः आसीत् वा न ह जयस्य विषयकः तस्य चिन्ता आसीत् वा यदा भगवता ब, ब, म, म, ब, शेमत भगवत श्रीमदीता उमें प्रसंगे जयम जय कथमी विषय किंता मनसी आसी वा तस् न सह तो तस्य समीपे तमी कृष्णेण परम शक्ति अभी तस्य चिंता का कथ जयं यदा अहम प्राप्न तदा तस् काभ मम मिता मम बाधव मम गुरु सत्यं सर्वे सत्र, त्र सर्व कृत्वा, अहम कथम सुखम उपबोगयाम इति तस्य दुःखम् ततः अत्र विषाद अर्जुनविषादयोगः प्रथमः अध्ययनः तत्र तेन विषादं कृतम् अतः अस्माकम् अस्माकं कः लाभः कस् कः लाभः अस्माकं लाभः भगवद्गीतायाः भगवता भगवद्गीतायाः उच्चारणम् इति अस्माकं लाभः तत्र अतः युनिषिरः एवं विशदति विशीदति इति अस्ति हा सद इति धातु तत्र विषिदति वि इति उपसर्ग सिदति विषिदति ह तत्र वि अस्ति यथा तत्र सकारस्य शकार दन्त्यसकारस्य मूर्धन्यसकार इति व्याकरणस्य भागम् अस्तु उत्तममस्ति भारतमहोदयः सम्यक् धन्यवादः धन्यवादः अग्रिमे हा एकवारं वदति वा भगिनी हा तत् रथ रथम् इत्युक्ते रथः इत्युक्ते स्यन्दनम् इति केरियट् इति तत् वाहकः वाहनं चालयति सः वाहकः खलु तथैव रथं चालयति सः रथिकः रथिकाः बहवः रथिकाः तत्र इति पुल्लिङ्ग्लिङ्ग पुल्लिङ्गारथि इति पदस्य अपि उपयोगं कर्तुं शक्नोमि वा परन्तु तत्र कः भेदः वदामि तत्र अत्र प्रथमं पदं तत्र महारथा इति अस्ति महारथाः इत्युक्ते पश्यन्तु तत्र आङ्ग्लभाषायां तत्र दोज़् वा कण्ट्रोलिङ्ग् नंबर आफ् रथास् दे आर् महारथा अत्र रथिका इत्युक्ते तत्र स्वामित्वं दर्शयति सारथी किं करोति सः तु केवलं चालयति परन्तु अत्र रथिका इति तत्र स्वामित्वमस्ति तस्य अस्तु रथ स्वामित्वं तस्य समीपे अस्ति केवलं एस् पर् द आर्डर् चरियट् ड्रैवरि इति न तथैव महारथः योद्धाः इति अस्तु भगिनि धन्यवादः धन्यवादः अधुना अग्रिमे आगस्ट् महोदये भवान् आरम्भं करोति वा अहो मम दौर्भाग्यं ततः आरभ्य पठति वा अस्तु भगिनि मम दौर्भाग्यं षोडशं दिनं ह्यः आचार्यद्रौणस्य दिवङ्गतिः mm. परह्यः जायद्रथस्य प्राणहानिः mm. प्रपरह्यः प्रियपुत्रस्य अभिमन्योः स्वर्गगमनम् Hmm. Uh, uh, can you can I ask something, please? Yes, yes. Yes, prachya tumode. Um, Duryodhana. Hmm. His aka, Kaurava, was a Kaurava. Hmm. And uh Abhimanyu hmm was a uh, Arjuna's son. Um, um so why vidyodana is uh is is sorry because of the of the departure of of abhimanyu no na tatha atra cintakulah yudhishthiraḥ viṣādam karoti khalo ah yudhishthira ah okay युधिष्ठिर इति कौरवेषु ज्येष्ठपुत्रः अत्र युधिष्ठिरः पाण्डव पाण्डवेषु ज्येष्ठपुत्रः अतः विषादं करोति खलु अभिमन्योः वधस्य कृते धन्यवादः प्रपरय्य एकवारं पुनः पठतु प्रपरय्यः प्रपर प्रपरह्यः प्रियपुत्रस्य अभिमन्योः स्वर्गगमनं तत्पूर्वं भीष्मादिनां पतनं श्वः कस्य चयः न जानामि पर्याप्तं तावत्पर्यन्तं अत्र यथा अधुना ओगस्ट् महोदय पृष्टवान तत तत् दुर्योधनः पश्यन्तु सर्वे दुर्योधनः इति तत्र तस्य आत्मनि एव अधर्म इत्युक्ते सः मूलतः अधर्मी इति रूपेण एव तत्र एकं वाक्यम् अधुना अहं स्मरामि सः वदति सः वदति स्म जानामि धर्मः न च मे किं वदति जानामि धर्मः न च जानामि अधर्मः न निवृत्तिः तस्य मनसि कदापि विषादभावनायाः लेशमात्रम् अपि तत्र अधिष्ठानं न आसीत् सः मूलता अधर्मी सः वदति धर्मशास्त्रम् किम् वदति एतत् सर्वम् अहं जानामि धर्मस्य कः लाभः अहं जानामि जानामि धर्मः परन्तु धर्म इति मम प्रवृत्तिः एव नास्ति प्रवृत्ति तत् मम वर्तने कदापि धर्मस्य अधिष्ठानं भवितुं न अर्हति जानामि धर्मः न च मे प्रवृत्ति जानामि अधर्मः अहम् एवं सर्वं जानामि अधर्मम् इत्युक्ते अहं जानामि अधर्मरीत्या अस्माकं वर्तनमस्ति कौरवाणां वर्तनम् अधर्मं एव सूचयति एवं सर्वं प्रसङ्गानुसारं वयं सर्वे जानीमः द्रौपदीवस्य हरणं प्रसङ्गं लाक्षा गृहप्रसङ्गं द्यूतप्रसङ्गं सर्वेषां प्रसङ्गानां यदि वयं पठनं कुर्मः तत्र अधर्मवृत्तित्वं तु अस्ति एव अधर्मवृत्तित्वम् एव अस्ति तत् सः जानामि अधर्मः न च मे निवृत्ति निवृत्ति अहं तस्मात् परे तस्मात् दूरं न गच्छामि अहम् अधर्मी एव अतः सः कदापि विषादम् न अकरोत् कदापि सः दुःखम् तत्र पश्यन्तु अन्तिमदिने अन्तिमदिने अपि सर्वे जानन्ति तत् कथा आसीत् अश्वत्थामा सर्वेषाम् पाण्डु पाण्डवपुत्राणाम् तत्र पञ्चद्रौपदेयाः ये सन्ति तेषाम् कृतवान् आसीत् तदा अपि सः कस्य प्रेरणेन तत्र गतवान् दुर्योधनस्य एव प्रेरणेन दुर्योधन दुर्योधनभीमस्य द्वयोः गदायुद्धम् अभवत् अनन्तरं भीमहतु शक्तिमान शक्तिमान् एव आसीत् तत्र दुर्योधनमरणासन्न तस्मिन् अपि प्रसंगे दुर्योधनः तत् गुरुपुत्रम् अश्वत्थां तम् एवं सर्वं बोधितवान् भवान् अधुना सेनापतिरूपेण गच्छतु तत्र पाण्डवानां शिबिरां शिबिरं गच्छतु तत्र सर्वे पाण्डवाः श्रान्ताः तत्र वधौ धकारणात् तत्र भवान् एव तत्र अहं भवन्तं नियोजयामि तत्र गच्छतु इति दुर्योधनमूलतः तस्य अधर्मवृत्तित्वम् एव आसीत् सः कदापि विषादं न कृतवान् तस्य मनसि कदापि खेदः खेदभावनाया जनम् न अभवत् एव अधुना अत्र किमस्ति युधिष्ठिरस्य विषाद अधुना युद्धस्य षोडशः दिवस युद्धसमाप्तिं न जातं तदा अपि युधिष्ठिर अहो मम दौर्भाग्यम् स्वस्य भाग्यस्य एव सः तत् भाग्यं प्रति सः विषादं करोति मम दौर्भाग्यमस्ति दौर्भाग्यम् इत्युक्ते बैड लक् इति हा अद्य युद्धस्य षोडशं दिनमस्ति यः आचार्यद्रोणस्य दिवङ्गतिः यः किम् अभवत् इत्युक्ते एक एका पञ्चदशदिन पञ्चदशदिने युद्धस्य पञ्चदशदिने किम् अभवत् आचार्यद्रोणस्य दिवङ्गति दिवङ्गति इत्युक्ते किम् अवस्तु महोदय इत्युक्ते पश्यन्तु दिवं गतिः दिवं तत्र दिव् इति धातुः अस्ति दिवादिगणे तत्र दिव इत्युक्ते तत् तत् तत्र, तत्र स्वर्गलोकम् इति दिवं गच्छति इत्युक्ते स्वर्गलोकं निधनम् आचार्यद्रोणस्य निधनं यः अभवत् इति सः वदति परः जयद्रथस्य प्राणहानिः जयद्रथः कः आसीत् आगस्ट् uh, महोदय जय जयद्रथः अस्तु अस्तु चिन्ता मास्तु जयद्रथ इत्युक्ते कौरवाणां भगिनी दुश्चिलाः दुश्चिला दुश्चिला नाम्ना कौरवा तत्र शतकौरवाः सन्ति तेषाम् एका भगिनी दुशिला नाम्ना तस्याः पति जयद्रथः सः अपि अतीव दुष्टप्रवृत्या प्रवृत्या एव तत्र वर्तनम् आसीत् तस्य अभिमन्यो अभिमन्योः हननप्रसङ्गे सः अपि तत्र कुकर्मं कृतवान् आसीत् कुकर्म कृतवान् आसीत् जयद्रथः दुश्शिलाः दुश्शिलायाः पति जयद्रथं सः कदा कदा तस्य प्राणहानि अभवत् परय्यः इत्युक्ते चतुर् चतुर्दशदिने युद्धस्य चतुर दिने, जयद्रथस्य प्राणहानि कोऽपि को, को वदति वा जयद्रथस्य हानि प्राणहानि केन कृतः अर्जुनेन सत्यं हा आ, तत्र एषः सूर्यः एषः जयद्रथः इति कस्य वचनम् अर्जुनस्य तत्र श्रीकृष्णस्य वचनं श्रीकृष्णस्य वचनम् इति खलु सः तत्र अन्तिमे भागे तत्र अर्जुनः तत्र प्रतिज्ञां कृतवान् आसीत् खलु तत्र आ, यदा अहं तस्य अद्यदिने एव तस्य हननं न करोमि तदा अहम् अग्निसमर्पणं करोमि इति सः उक्तवान् तदा तत्र इति किं वदन्ति तत्र तस्मिन् एव समये सूर्यग्रहणस्य प्रसङ्गं जातम् अतः तत्र सूर्यस्य दर्शनं किञ्चित् काल काल यावत् न अभवत् तदा जयद्रथः तत्र उपविष्टवान् तदा सः तत्र सः अर्जुनस्य पुरतः आगतः तदा श्रीकृष्णभगवान् उक्तवान् पश्यतु अर्जुन त्यजतु एतत् सर्वं प्रा अग्निसमर्पण एवं सर्वं त्यजतु एषः सूर्यः एषः जयद्रथः इति <laughs> आकाशे नभसी तत्र सूर्यः अस्ति अत्र भवतः भवतः पुरतः जयद्रथः अपि अस्ति अधुना तस्य हननं करोतु इति अनन्तरं तत्र कथा आसीत् तत्र जयद्रथस्य तत्र शरया तत्र हननं तु अभवत् परन्तु तस्य मस्तकं तत्र तस्य Uh, पितुः uh, अङ्कि एव तत्र भवेत् एवं सर्वं तत कथा आसीत् हा अस्तु व्यद्रथस्य प्राणहानिः अर्जुनेन कृता इति हा अधुना प्रपरय्यः प्रियपुत्रस्य अभिमन्योः स्वर्गगमनम् इत्युक्ते अधुना षोडशः दिवसः पञ्चदशदिने आज आचार्यद्रोणस्य स्वर्गवासः अनन्तरं चतुर्दशदिने जयद्रथस्य प्राणहानि अथवा त्रयोदशदिने अभिमन्योः स्वर्गगमनम् अभिमन्यु इति अधुना अभिमन्योः हो, हो माता का माता पिता अभिमन्योः माता पिता अर्जुन अर्जुनः पिता माता कोऽपि जानति वा अभिमन्योः माता सुभद्रा सुभद्रा सुभद्रा कस्य भगिनी कृष्णस्य भगिनी आं कृष्णबलरामस्य भगिनी तदा एव तत्र जगन्नाथपुरी मध्ये वयं पश्यामः खलु कृष्ण अनन्तरं बलराम सुभद्रा तत्र अभिमन्योः माता सुभद्रा अतः तत्र चक्रव्यूहविषयकः ज्ञानं सः गर्भवासे स्थितः सः अवगतवान् आसीत् ज्ञातवान् आसीत् परन्तु तत्र प्रत्यागमनं सः न जानाति इति स्थितिः अतः तस्य हननं सर्वे मिलित्वा सर्वेषां कौरवाणां तत्र सहयोगः आसीत् कर्णः आसीत् जयद्रथः आसीत् तस्मिन् समये अनन्तरं दुर्योधन तु आसीदेव दुःशासन सर्वेषां कौरवाणां सर्वे मिलित्वा एकः एव तत्र वीरः अभिमन्युः तस्य हननं तैः कृतम् इति हा इति स्थितिः तत्पूर्वं भीष्मादीनां पतनम् अत्र भीष्मादीनां पतनम् इति उक्तमस्ति पतनम् इस् टु फाल् पतनं तथा कथं स्वर्गवासः वा अन्य कोऽपि दिवङ्गता एतं सर्वं एतेषां शब्दानां योजना किमर्थं तत् न अस्ति पतनम् इति किमर्थं दत्तमस्ति कोऽपि वदति वा तस्य मरणं न अभवत् शर शर शराणां शय्या शरशय्याणां शरा उपरि सः तत्र उत्तर उत्तरायणस्य प्रतीक्षां तेन कृतं तत उत्तरायणं यदा आर आरप्स्यते तदा एव मम प्राण प्राण अहं प्राणत्यागं करोमि सः इच्छामरणी आसीत् सः इच्छामरणे वरदानं सः प्राप्तवान् आसीत् सः तत्र केवलं पतनम् Uh, uh, इतोपि एकः प्रश्नः कोऽपि जानति चेत् पृच्छामि अत्र uh, यदा सः शय्या शा, शा, शरशय्यायां तत्र सः भीष्मः आसीत् तस्मिन् समये एकस्य स्तोत्रस्य जननम् अभवत् तस्मात् विष्णुसहस्रनामस्य भगिनी आम् बहु सम्यक् विष्णुसहस्रनाम देट्स् वै एव्रिबडि सेन् इट् इस् वेरि पवर्फुल् हा विष्णोः थौजंड तहना सी विष्णु विष्णुसहस्रना अस्त उत्तम अः शय कराजय न जाने चिंताग्रस् युधिषि श्य जय भराजय अदुना पचनु षोडशे दिने अपि युद्धस्य निर्णायकीस्थितिः इति न आसीत् निर्णायकीस्थितिः न आसीत् कस्य जयम कस् भवितुम् अर्हति कस्य पराजयं भवितुम् अर्हति कोऽपि न जानाति न जानामि इति अस्तु हा धन्यवादः महोदय अग्रिमे तत्र धन्यवाद महोदय गीतांजलि अग्रिमे पटती वरश तथार पर कीवनम कश मरण न जानी जानी प्रपरश तदन कश किं कि ज्ञात अम राज अहम् एव सर्वविधस्य क्लेशस्य हेतुः अहं कथं जीवानि आहा इति रोदिति पश्यन्तु सः अधुना तस्य मनसि श्वः विषयकचिन्ता श्वः कस्य जयः कस्य पराजयः न जानामि परश्वः कस्य जीवनं कस्य मरणं न जानीमः कस्य जीवनं भवितुमर्हति कस्य मरणं भवितुमर्हति इति न जानीमः तद् जानीमः अस्ति इत्युक्ते कतृरूपेण वयं न जानीमः अहं न जानामि प्रपरश्वः तदनन्तरं कस्य कस्य किं किम् इति न ज्ञातं भवति कस्य कस्य किं किम् कस्य जीवनं कस्य मरणं कस्य कस्य का गति इति न ज्ञातं भवति तस्य ज्ञानं नास्ति इति सर्वस्य कारणं मम राज्याभिलाषः गीताञ्जलिमगिनि राज्याभिलाषः इत्युक्ते किम् इस् हेविङ्ग् बिकम् किङ्ग् आफ् राज्याभिन्स् अभिलाषा राज्य अभिलाषा इच्छा राज्य प्राप्ते है, इच्छा हा? अहम राजा भवामी मम इच्छा मम अष मिंतन अनाश से कारण अहम सर्विध्य क्लेश हेतु सर्वविधा क्लेशः सर्वविधः क्लेशः विधः इत्युक्ते विविध विविधप्रकारकः सर्वविधस्य क्लेशस्य इत्युक्ते सर्वतोपरि तत्र मम एव दोषः इति सः वदति क्लेशः इत्युक्ते किं गीताञ्जलिभगिनी क्लेशः क्लेशः इस् डिफिकल्ट् आर्मेपि हा ओ... पीडा वा तत्र हा तत्र कठिनसमयः इति हा, हा सर्वविधस्य क्लेशस्य हेतुः अहमेव हेतु इत्युक्ते कारणम् इति हा तत्र स्वयं सर्वविधस्य क्लेशस्य कारणम् इति सः वदति स्वं वदति कारणम् इति अहं कथं जीवानि जीवानि इति अस्ति लोट्लकार उत्तमपुरुष आनी अव आम इति तत् जीवानि अहं कथं जीवानि अनन्तरं रोदनं करोति रोदिति रुद इति धातु अश्रुविमोचने तत्र रोदिति इति प्रथमपुरुष एकवचनान्तं तस्य विलापः अत्र दृश्यते रोदनं दृश्यते विलाप सः विलापयति विषादं करोति यः अद्य युद्धस्य षोडश दिनम् अद्यापि युद्धः प्रचलत् अस्ति प्रवर्तमानम् अस्ति अधुना युद्धस्य षोडशः दिन तत्र तस्मात् प्राक् किं किम् किम अभवत् तस्मात् अनन्तरम् अनन्तरं किं किं भविष्यति किं किं भवितुम् अर्हति सर्वेषु स्थलेषु क्लेशः एव मया दृश्यते अधुना क्लेशस्य कारणं किम् अहम् एव क्लेशस्य कारणं अहम् एव हेतुः तत् हेतुः तदा अहं किमर्थं जीवामि कथम् अहं जीवानि वट् इस् द पर्पस् आफ् मै लिविङ्ग् इति उक्त्वा सः रोदिति अस्तु स्पष्टमस्ति एतावत् ना ना अस्तु धन्यवादः अधुना विना भगिनी अग्रिमे पठति वा अभ्यासः इति अस्तु भगिनि पठामि कोष्टकात् चित्वा रिक्तस्थानानि पूरयत प्रपह प्रपरह्यः परह्यः ह्यः आसीत् अद्य अस्ति श्वः प्रपश्वः भविष्यति भगिनि आसीत् अस्ति भविष्यति तत्र धातुः कः धातुः अस् धातु अतु अस्ति तस्य भूतकाले आसीत् इति भवति लट्लकारे वर्तमानकाले अस्ति भविष्यत्काले दृढ्लकारे तस्थ अस्तेर्भू भु। तेन भू इति आदेशः भूत्वा भविष्यति इति तत्र भू इति आदेशः भवति अतः तत्र भविष्यति मूलतः धातु यथा भवती उक्तवती एव धातु अस्ति भू इति आदेश आदेशः इत्युक्ते तत्र किम् अस्ति वदामि तत्र अत्र व्याकरणे शत्रुवत् आदेशः चत्रुवत आदेशः मित्रवत आगमः इति एका संज्ञा हा संज्ञा इति न तत् परिभाषा वा स्पष्टीकरणम् इति वक्तुं शक्नुमः इत्युक्ते यत्र यत्र आदेशः भवति पश्यतु आदेश इत्युक्ते आर्डर् यदा आर्डर् इति अहं वदामि तदा किं भवति एवं करणीयमेव इति हा तत् शत्रुवत् आदेशः इत्युक्ते तत्र अस् न भवति एव लुट्लकारे भविष्यत्काले अस न भवेत् तस्य स्थाने भू एव भवेत् इति आदेशः आर्डर् मित्रवत आगम कदा भवति आगम अहमपि तत्र तिष्ठामि भवानपि तत्र आगच्छतु मिलित्वा रूपसिद्धिं भवेत् इति मित्रवत् आगम् सः वर्णः तत्र अस्ति अनन्तरं द्वितीयवर्णः तत्र अस्ति इति व्याकरणशास्त्रे तत् आगमः आदेशः इति एकम् एका सङ्कल्पना आसीत् इति अस्तु अधुना तत्र अस्थाने एव भू आगच्छति अतः भविष्यति एव रूपम् अस अस् धातो तत्र लेशमात्रं तत्र अस्धातुः न दृश्यते एव तस्य स्थाने एव भू आगच्छति इति अस्तु अग्रिमे किञ्चित् पठनं कृत्वा भवती पठति वा तत्र अद्य मङ्गलवासरः अस्ति चिन्तयतु अद्य मङ्गलवारवासरः अस्ति न बुधवार मङ्गलवासरं स्वीकृत्य वाक्यानि रचयतु तत्र हा भगिनि अस्तु ह्यः सोमवारः आसीत् परह्यः रविवारः आसीत् प्रपह्यः शनिवारः आसीत् श्वः श्वः बुधवारः भवति भविष्यति सम्यक् परश्वः गुरु गुरुवासरः भविष्यति पश्वः शुक्रवासरः भविष्यति आम् अधुना यथा भवती उक्तवती अद्य मङ्गलवासरः आसीत् अस्ति इति तत्र एतेषाम् अभ्यासवाक्यानाम् आधारेण एव प्रश्नरवाक्यानि इत्युक्ते अद्य मङ्गलवासरः आसीत् अस्ति तत् मङ्गलवासरः कदा अस्ति यः सोमवासरः आसीत् सोमवासरः कदा आसीत् अस्तु भगिनि अद्य मङ्गलवासरः अस्ति huh. uh, मङ्गलवारः um, hmm. कदा अस्ति मङ्गलवासरः अद्य अस्ति ह्यः सोमवासरः आसीत् सोमवासरः hmm. कदा आसीत् परह्यः रविवारः आसीत् रविवारः कदा आसीत् रविवासरः इति रविवासरः प प्रप प्रपह्यः प्रपह्यः प्रपरह्यः शनिवारः आसीत् शनिवारः कदा आसीत् योग्यं श्वः श्वः तुमोरो श्वः श्वः बुधवारः भविष्यति श्वः बुधवासरः कदा भवति भविष्यति कदा भविष्यति बुधवासरः कदा भविष्यति हा भवति अपि योग्यं वा योग्यं परन्तु भव भविष्यति इति व्याकरणदृष्ट्या योग्यं बुधवासरः कदा भविष्यति इति एवं योग्यं भवेत् अस्तु भगिनि हा परश्वः विच् डे किं किं दिनम् आसीत् किं वासरः आसीत् परश्वः गुरुवासरः भविष्यति गुरुवासरः कदा भविष्यति इति हा अस्तु गुरुवासरः कदा भविष्यति हा कदा भविष्यति शुक्रवारः प्रपश्यः शुक्रवारः भविष्यति hmm. uh, शुक्रवारः कदा भव भविष्यति कदा भविष्यति शुक्रवासर कदा भविष्यति भविष्यतु इति अस्ति हा योग्यं सम्यक् अस्ति अस्तु तत् धन्यवाद अद्यदिनस्य तत् अध्ययनम् एतत् यः अद्य श्वः परश्वः परपरश्वः यः परय्यः प्रपरय्यः एव अधुना कथायाः समयम् अत्र कथानिमिषम् इति एकनिमिषं तत्र स्क्रीन दृश्यते खलु सर्वेषाम् आं दृश्यते भगिनिमिषम् कुर्मः राधा भगिनी आरम्भं करोति वा भवती सद्विचारः कार्यः सदा ततः आरभ्य भगिनी गीताभगिनी अपि अस्ति अस्तु वा ओहो हो अस्तु wow. अस्तु अस्तु गीताभगिनी अस्त, आरम्भं करोतु तत्पश्चात् राधाभगिनी क्षम्यताम् अहं न दृष्टवती गीताभगिनी नमो नमः आरम्भं करोति वा श्यामला भगिनी अस्ति वा अस्तु भवती एव पठतु तदा राधा भगिनी भगिनि भवति पठितुम् इच्छति वा श्यामला भवती पठामि अहं पठामि पठतु सद्विचारः सदा ततः आरभ्य सद्विचारः सदा सद्विचारः कार्यः सदा निताई त्रिन्नल् वेणी राजा कृष्णदेवराय ततः आरभ्य पठतु राजा कृष्णदेवरायः विजयनगर विजयनगरसाम्राज्यस्य प्रसिद्धः शासकः तस्य सभायाः सदस्यः तेनालिरामः अपि विख्यातः रा, राजनीति यः तेनालिरामस्य निष्कपटतां दृष्ट्वा राजा कृष्णदेवरायः तस्मिन् स्नेहं विश्वासं च करोति स्म पश्यन्तु हा अत्र किमभवत् राजाकृष्णदेवराय कृष्णदेवरायः विजयनगरसाम्राज्यः प्रसिद्धः अस्ति <laughs> शासकः शासकः इत्युक्ते राज्यकर्ता इति इत्य। शासकः प्रसिद्धशासकः तस्य सभायाः सदस्य तेनालीरामः तेनालीरामः कः विख्यातः राजनीतिज्ञः राजनीतिज्ञः यः राजनीतिम् जानाति राजनीतिज्ञः तन्त्रज्ञः यः तन्त्रम् जानाति शास्त्रज्ञः यः शास्त्रम् जानाति सः राजनीतिज्ञः यः राजनीतिम् जानाति राजनीति इति राज्यशासनस्य विषयक तस्य ज्ञानम् इति अग्रिमे किं दत्तमस्ति भगिनि रङ्गायि रामस्य निष्कपटतां दृष्ट्वा राजा कृष्णदेवरायः तस्मिन् स्नेहं विश्वासं च करोति स्म निष्कपटतां दृष्ट्वा इत्युक्ते किमर्थं तत् निष्कपटत् निष्कपटवृत्ति तस्य आसीत् अतः तस्मिन् स्नेहं विश्वासं करोति स्म पश्यन्तु सर्वे तत्र तस्मिन् इति अस्ति सप्तमी विभक्ति तस्मिन् सप्तम्यन्तपदं स्नेहं विश्वासं तस्मिन् स्नेहं करोति तस्मिन् विश्वासं करोति हा अग्रिमे अपि पठतु भगिनी शमला भगिनी अग्रिमं परिषदमपि एकदा एकदा एकदा रा रामक्ष विहारार्थं नगरस्य कश्चन भागं गतौ मार्गे दृष्टाः सर्वाः प्रजाः राजा राजानाम रामं च नमस्कृत्य गच्छन्ति स्म hmm. तत्र आगतः कश्चन तक्षकः अपि एतौ प्रणम्य अग्रे गतवान् परन्तु तस्य नि, नि, निर् आरभ्य राजा किञ्चित् किञ्चित् इव अतृप्तिं अस्वस्था अनुभूतवान् hmm. राजभवनं प्राप्य सः रामम् उक्तवान् तस्य तक्षकस्य दर्शनात् आरभ्य मम मनः पितरम् अस्ति सन्तोषः hmm. पूर्णतया नष्टः इति भाति इति रामः मौनेन एतत् श्रुतवान् hmm. एतस्मिन् परिच्छदे रामः इत्युक्ते तेनालीरामः एव तत्र संक्षिप्तरूपं तत् रामः इति अस्ति किमभवत् तत् राजा कृष्णदेवराय तेनालीरामः अपि नगरस्य कश्चन भागं गतौ तदा किम् अभवत् भगिनी मार्गे सर्वे सर्वाः प्रजाः किं कृत नया नमस्कारं कुर्वन्ति तत्र कः आगतः तक्षकः तक्षकः तक्षकः इत्युक्ते अतिथि तक्षकः इत्युक्ते संवन् हा परन्तु अन्य कोऽपि साहाय्यं करोति वा तक्षकः इत्युक्ते तक्षक तक्षकः इत्युक्ते तक्षकेक् क्याक् तक्षकः इत्युक्ते किं भगि एकनिमिषं तत्र तक्षकः इत्युक्ते कार्पेण्टर् hmm. तक्षकः आं तत् तक्षकः तत्र, तत्र आ, सर्पस्य नामकरणं पुराणयग्रन्थेषु अस्ति तक्षकः इन्द्राय स्वाहा तक्षकाय स्वाहा यदा सर्पसत्रम् अभवत् जनमेजय राज्ञा तत, तदा तत् तत् अत्र वर्कर् इति तक्षकः तदा सः प्रणामं प्रणम्य अग्रे नमनं सः परन्तु राजा किम् अनुभूतवान् भगिनि राजा कश्चन तक्षकः अपि एतौ प्रणम्य अग्रे गतवान् हा परन्तु राजा किम् राजा अस्वस्था अतृप्तिम् अस्वस्थाश्च अनुभूतवान् अतृप्तिम् अस्वस्थाम् अनुस्वस्था अस्वस्था अनुभूतवान् तत्र अस्व अस्वस्थताम् इति अस्ति हा अस् अतृप्तिम् द्वितीयान्तपदम् अस्वस्थताम् द्वितीयान्तपदम् अनुभूतवान् अतृप्तिमपि अनुभूतवान् अस्वस्थतामपि अनुभूतवान् राजभवनम् प्राप्य सहरामं उक्तवान, रामम् उक्तवान् तेनालीरामम् उक्तवान् किम् उक्तवान् भगिनी रक्षकस्य दर्शनात् आरभ्य मम मनः चित्रम् अस्ति आफ्टर् सीन् योर् वर्क् फ्रम् दट् टैम् मै मैण्ड् इस् नाट् वर्किङ्ग् करेक्ट् सन्तोषः पूर्णतया नष्टः इति भाति इट् सिम् मम सन्तोषः पूर्णतया नष्टः इत्युक्ते किं मै हेपिनेस् वेण्ट्फुल् टोटलि सत्यं रा देनालीरामः एतत् श्रुतवान् मौनेन श्रुतवान् इत्युक्ते किं भगिनी सैलेण्ट्लि हा किमपि प्रत्य प्रत्यवदनं नास्तु अत्र किमपि न उक्तवान् सः मौनेन एव श्रुतवान् मौनेन किमपि नृतवान् मौनेन किमपि धन्यवाद भगिनी धन्यवाद धन्यवादः अधुना अग्रिमे राधा द्वित्रदिनानन्तरं पुनः राजा रामश्च नगरं प्रति गतौ विहारार्थम् अधुनापि सह तक्षकः मार्गे दृष्टः सोऽपि राजनं वन्दित्वा जयघोषम् कृत्वा अग्रेगतः गतः राजभवनं प्राप्य राजा रामम् कथितवान् अद्यापि सः तक्षकः दृष्टः मया परन्तु तस्य दर्शनात् अहम् अद्यः मुदितः अस्मि कथमेव प्रपरह्यः यस्य दर्शनात् अतृप्तिः प्राप्ता आसीत् अद्य तस्यैव दर्शनात् तु प्रसन्नता कथम् एतत् किं दत्तमस्ति अधुना द्वित्रिदिनानन्तरं राजा अपि तेनालिरामन् नगरं गतवन्तौ विहारार्थम् तदा तक्षकः मार्गे दृष्टवान् तेन राजा वन्दितवान् जयघोषी कृत्वा अग्रे गतवान् राज राजा राजभवनं प्रति आगतवान। अत्र रामं कथितवान् अहं तक्षकः अद्यपि अहं दृष्ट्वा परन्तु अहं मुदित आनन्द अस् अस्मि कथं कथमेवं पपरह्यः अहं दृष्टवान् तत् तदा अतृप्ति भवन्ति परन्तु अतृप्तिः अतृप्ति अभवत् परन्तु अद्य तस्य दर्शनात् अहं प्रसन्ना अस्मि कथमेवम् अभवत् इति बहु सम्यक् उत्तमम् अस्ति भगिनि उत्तम् उत्तमतया भवती विवरणं कृतवती पश्यन्तु अत्र पुनः एकवारम् राजा कृष्णदेवरायः तेनानिराम, राम तावत् एव तथैव विहारार्थम् अत्र विहार तत्र वि उपसर्गपूर्वकम् रू इति धातु रुधातुः तत्र बहवः उपसर्गाः विहार आहार अपहा अपहरणम् तत्सर्वं हरणम् इति अपहरणं विहरणम् अनम बहव उपसर्ग ती हाँ तरध धा हाँ अधुना अभी सह तक्षक मगे दृष्ट हाँ सह दृष्ट कक्षक सह राज मंदयोषं अग्रे ग तक्षक मनसी तर शिष्टाचार शिष्टाचार पालन तथा अद अभी सह तथा आचरतवा तत्र दिन दिनस्य प्राक् तत्र कदा द्वि द्वित्रदिनात् प्राक् अपि सः तथैव आचारस्य शिष्टाचारस्य प्रदर्शनं कृतवान् आसीत् तत्तत् वन्दनं कृत्वा जयघोषं करणीयम् अग्रे परन्तु अधुना राजा किं वदति तेनारीरामं वदति अद्य अहं मुदितः मुदितः आनन्दितः मम मनसि सन्तोषः अस्ति मोदः अस्ति आनन्दम् अस्ति एवम् कथम् एवं प्रपरय्यः द्वित्रिदिनात् प्राक् मनसि अतृप्ति अद्य प्रसन्नता कथ कथम् एवम् अस्तु धन्यवादः धन्यवादः अधुना पश्यन्तु अद्य विषयः कः मनसी प्रसन्नता वा मनसी खेद भावना कथम जनयती एव पुस्तक परंतु कदा कदा वय अभ्यास कृते पुस्तक उद्घाटयाम तनसी शैथिल्यमस्वी पर अतीव उत्साह वर्व कार्य कूम किमत अदय दिनस्य कथायाः विषय पश्यन्तु अग्रे किम् अभवत् इति हा भगिनी अग्रिमे तत् गीताञ्जलि भगिनी भवती पठति वा तदा तेनालीरामः तत् आरभ्य हा भगिनी तदा तेनालीरामः अवदत् महाराजा अत्र अस्ति कश्च किश्चन सारि किञ्चन विशेषणकारणम् प्रपरः भवतः दर्शनवासरे तस्य तक्षकस्य मनसि विचारः उत्पन्नः आसीत् यत् यदि राजक, राजकु राजकुटुम्बे कोपी मित्र म्रियेत म्रिये म्रियेत् सोरि म्रियेत तर्हि मम सकाशात् बहुनी चन्दनकाष्ठानि क्रीतानि भवेयुः तेन सह मम उपजीव जीविका भवेत् इति महाराजा <laughs> अत्र अस्ति केचन तावदेव तावदेव अतः त्यजतु एतावत्पर्यन्तं किं दत्तमस्ति तत् स्वशब्दै वदति वा तदा वदति महाराज तस्मिन् दिने विशेषकारणम् अस्ति प्रपरः तस् भवतः मिलति खलु तस्य तक्षस्य तर्हि तस्य विचारः उत्पन्नः भवति यद्यदि राजकुटुम्बे कोऽपि दैनो म्रियेत आमां म्रियेत् तत्र मृङ्गप्राणित्यागे तत्र मृङ्ग इति धातु मृ मृ okay. म्रियेत् यदि कोऽपि मरणं प्राप्नोति कोऽपि मरणं प्राप्नोति तर्हि तर्हि किं ते केन् बै द छन्दन् काष्ठानि अंतिम संस्कार से कंदन काीतालका मजीविका भवे पश्यु सह तक्षक सह का कौस अत यं पश्य मनसी विचार मनसी कचार अस्त राजुटुंबे राज यदा कोप म्रििएत काप्येत तदा मह सका अहम बहूनी चंदन काषा तदा त्रयमूल्य अहम प्रानोमी तेन मम उपजीविका भवजी का तो एव आसत अतः तारित मैं कि चंदन का स्वीकृत सह यदा अर्पण कौती ददा तत् क्रियणमूल्यम प्राप्त मनसी आगे अस्त एक कदा अब प्रपरय्यः इत्युक्ते यदा द्वित्रदिनात् प्राक् द्वित्रदिनात् प्राक् प्रपरय्यः यदा राजा तस्य दर्शनात् मनसि खेदः मम मनः खिन्नमासीत् तस्य तक्षकस्य दर्शनात् आरभ्य मम मनः खिन्नमासीत् तत्र राजा किं मम मनः खिन्नः तदा तस्मिन् दिने प्रपरय्यः द्वित्रदिनात् प्राक् एतत् सर्वं कक्षकस्य चिन्तनम् किमस्ति राजगृहे कोऽपि मरणं प्राप्नुयात, तेन मम अम, तत् चन्दनकाष्ठानि कीतानि तद् तेन मम अर्थप्राप्ति भवेत् तत् माम् अर्थप्राप्ति भवेत् तेन मम उपजीविका सम्यक् सम्यक्तया भवेत् इति तस्य चिन्तनं तस्मिन् दिने आसीत् तदा एव राज्ञा राजा मनसि वदति खलु मनमनसि खिन्नता अधुना अस्ति इति एवम् अस्तु धन्यवाद। धन्यवादः तत्र अधुना अग्रिमे हा भारतमहोदय पठति वा अतः एव अतः एव भवतः मनसि अप्रसन्नता उत्पन्ना आसीत् अद्य तु भवतः दर्शनात् पूर्वम् तक्षकम् Hmm. वान् hmm. आयत् awesome. awesome. आस, आसम् आसम् आसं यत् hmm. महाराजस्य जन्मदिना दिनाचरणचरणाय बहवः hmm. आसन्दाः निर्मातव्याः भवान् hmm. उत्तमरीत्या उत्तमरीत्या <laughs> आसन्दानं निर्माय ददातु भवत् <laughs> के प्रभूतं धनं दास्यते इति <laughs> पर्याप्तम् अधुना एतावत् पर्यन्तं किं दत्तमस्ति तत् वदति वा राज राजा <laughs> <आ, laughs> मनसि अ प्रसन्नता प्रसन्नता आसीत् सत्यम् अद्य तु भवतः दर्शनात् पूर्वम् अहं तं तक्षकं सृचितवान् आसं यत् महाराजस्य जन्मदिनम् आचरण आचरणाय आसन्दाः mm -hmm. निर्मातव्याः भवान् mm -hmm. उत्तमरीत्या आसन्दान् निर्माय ददातु mm -hmm. अत्र पश्यन्तु परप्रपरयः यदा दर्शनमभवत् तक्षकस्य तदा तक्षकस्य मनसि कः विचारः अत्र राजपरिवारेषु कोऽपि मरणं प्राप्नुयात् तेन मम लाभः भवति चन्दनकाष्ठानि आनीतव्यानि तेन मम लाभः अहम् उपजीविकां प्राप्नोमि एतत् सर्वं सकारात्मकचिन्तनं न आसीत् खलु कोऽपि मरणं सर्वं तत् विपरीतचिन्तनमासीत् अतः तस्य परिणाम परिणामं राज्ञः मनसि जनयति मनसि अप्रसन्नता परन्तु तेनालीरामस्य चातुर्यं कुत्र अस्ति भवतः दर्शनात् पूर्वं अहं तं तक्षकं सूचितवान् एतत् सर्वं तक्षकस्य एतादृशम् चिन्तनम् न भवेत् अतः चतुरः तेनानीरामः राज्ञः दर्शनात् प्राक् एव तक्षपम् तक्षकम् आहूतवान् तम् सूचितवान् किम् सूचितवान् महाराजस्य जन्मदिनस्य आचरणम् भवेत् जन्मदिनाचरणाय जन्मदिनस्य आचरणार्थम् सेलिब्रेशन् बर्डे सेलिब्रेशन् इति वा वा हा बहवः आसन्दाः निर्मतव्याः तत्र अतिथयः आगच्छन्ति तेषां कृते आसन्दाः इत्युक्ते केर्स् बहवः भवान् तु तक्षकः उत्तमरीत्या आसन्दान् निर्माय ददातु भवते प्रभुतम् धनं दास्यते इति धनसम्पादनम् इति तस्य चिन्ता आसीत् तक्षक उपजीविका धनसंपन तन सी एवं सर्व क्या मरण भव क्य तेनाली रामस्य सेशेषता का सकारात्मक चिंतन जन्मदिनम् तस्य आचरणम् तत्र उत्सवः प्रचलति अधः तत्र आसन्दाः अतिथयः आगच्छन्ति तेषां कृते आसन्दाः निर्मातव्याः भवान् तु, तु भवतः भवती तु कौशल कुश, अस्ति तत् उत्तमरीत्या आसन्दान् निर्माय ददातु तेन किं भवति उपजीविकायाः यः प्रश्नः मनसि तत्तु निर्गतः आसन्दानां निर्मिति अतः भवतं धनं दास्यते प्रभूतं धनं प्राप्तुं शक्नोति भवान् निर्माणम् करोतु आसन्दानां निर्माणम् करोति धनप्राप्ति अपि भवति इति स्पष्टमस्ति अधुना अस्तु धन्यवादः धन्यवादः अग्रिमम् लास्ट् त्री फोर् लैन्स् तत्र आगस्ट् महोदये भवान् पठति वा अतः सन्तुष्टः ततः आरभ्य भगिनी अतः सन्तुष्टः सः दक्षकः भावदर्शनावसरे भावद चिन्तितवान् यत् चिरञ्जीवतु महाराजः ममापि प्रतिवर्षम् आयह भवेत् राज्ञः जन्म दिनाचरण दिनाचरणी मितेन इति अतः भवती प्रसन्नता उद्विष्टेव तस्मा, तस्मा तस्मादेव बुद्धा <coughs> बुद्धाः वदन्ति सद्विचारः एव कार्यः सदा इति Hmm. किम् अभवत् तेन तेनालीरामः तक्षकम् सूचितवान् प्रभुतम् धनम् भव भवान् प्राप्नोति उत्तमरीत्या आसन्दानाम् निर्मितिम् करोतु तेन धनम् प्राप्यते इति अग्रिमे किम् अभवत् अवष्टमहोदय भवान् विवरणम् कर्तुम् इच्छति वा किम् अभवत् अतः सन्तुष्टः सः तक्षकः किं चिन्तितवान् अस्तु अस्तु अस्तु चिन्ता पश्यन्तु तत्र संतुष्टः तक्षकः अधुना तेनानीरामस्य वचनानि श्रुत्वा तक्षकः सन्तुष्टः किमर्थम् तस्य उपजीविकायाः प्रश्नः अधुना न भविष्यति सः तु धनम् प्राप्नोति आसन्दानाम् निर्मितिम कृत्वा सः धनार्जनम् कर्तुम् शक्नोति तेन सः सन्तुष्टः अधुना सन्तुष्टः तक्षकः अद्यदिने भवतः राज्ञः पुरतः आगतवान् तदा भवत दर्शनावसरे भवद्दर्शनावसरे इत्युक्ते राज्ञः दर्शनस्य अवसरे दर्शनसमये मनसि मनसि सः किम् चिन्तितवान् ओ जन्मदिर्ण जन्मदिनस्य आचरणम् भवेत् जन्मदिनस्य कृते तत्र उत्सवः भविष्यति तदा महाराज चिरञ्जीवतु चिरञ्जीवतु चिरञ्जीवतु जीवतु, जीवतु, जीवतु इत्युक्ते लाङ्ग् लिव् द किङ्ग् इति चिरञ्जीवतु महाराज मरणस्य कोपि विचारः अधुना अद्यदिने तस्य मनसि न आगतः विपरीतः एव सकारात्मकचिन्तनम् किमर्थं चिरञ्जीवतु महाराज तेन किं भवत् किं भवेत् प्रतिवर्षे जन्मदिनस्य आचरणम् भवेत् जन्मदिनस्य आचरणम् इत्युक्ते तत्र उत्सवः भविष्यति तेन किं भवति मां तत् तक्षकरूपेण तत्र अहं कार्यं कर्तुं शक्नोमि मम अपि प्रतिवर्षम् आयः भवेत् इत्युक्ते इन्कम् इन्कमिङ्ग् हा मम अपि आयः भवेत् राज्ञः जन्मदिनाचरणनिमित्तेन हा तेन निमित्तेन निमित किं भवति अहमपि प्रभुत धनमोमी महाराज चिंजीवत चिंजीवी तम भवे प्रतिदिन तस्वीर जन्मदिनच मापी आय भव प्राप्ति भवित अत प्रसन्नता उद्भूता तक्षकस्य एव चिन्तनम् दिनद्वयात् प्राक् प्रप्रैः प्रपरय्यः तक्षकस्य चिन्तनं भिन्नम् अद्य दिने तक्षकस्य चिन्तनम् भिन्नम् यतोऽपि तत्र शब्दान् कोऽपि योजि शब्दान् उपयुज्य सः किमपि न उक्तवान् परन्तु मनसि ये ये विचाराः आगताः तिबिम्ब तेषाम् प्रभावः राज्ञः मनसि यदा राजपरिवारेषु कस्यापि मरणस्य विषये सः तदा राज्ञः मनसि खेदः अधुना सः चिन्तितवान् चिरञ्जीवतु महाराज प्रतिवर्षे प्रतिवर्षम् आयः मम भवेत् प्रतिवर्षे राज्ञः जन्मदिनचरणं दिना दिनकृदिनस्य अवसरे उत्सव भवे तेनाली आय भवेत, अहम धन प्रानेमी तेन किताशं चिंतन यदा तक्षक अभवत तदा मनसी प्रसन्नता उद्भूता आगता उत् मू धा तत्ता प्रसन्नता उद्भूता तस्मा अन्तिमा पङ्क्तिः तस्मात् एव बुधाः वदन्ति बुधाः इत्युक्ते ज्ञानिजनाः विद्वज्जनाः किं वदति सद्विचार एव कार्यः सदा सदा सद्विचारः एव कार्यः मनसि सत्विचारः असत्विचारी सद्विचारान् एव आरोपणं भवेत् मनसि सद्विचारान् एव जननं भवेत् सद्चारदा सदा सदा सर्वदा तंत्र निरंतरता भव अदय काले अहम प्रार्थना कौमी तदा मन सद्चार अनम कि अभवत कार्यस्थले कि अभवचारा निर्गता न सदा सद्चारा चिंतन कथा अस्तु इदानीं स्पष्टमस्ति महोदय अस्तु um. <laughs> अधुना एकमेकं एकम वदन्तु कीदृशी कि कथा किं किं दत्तमस्ति कथायां वदन्तु एकमेकम् वदन्तु वीणाभगिनी राधाभगिनी श्यामला भगिनी गीतापुञ्जलि भगिनी भारतमहोदय ओगोस्ट् महोदय एकमेकं वदन्तु कीदृशाः विचाराः भवेत् मनसि पासिटिव् थिङ्किङ्ग् रिफ्लेक्ट् आन् देस् सो देट् अदर् पीपल् केन् मेक् औट् लैक् दस्य अवगमनं भवति य वह चिंत मम मनसी विचारा सी तवगमनम भवत्ति मम मनसी पर मुखे तर प्रदर्शनमती मुख्य उपरी तर प्रदर्शनमे अहजतया तगमनमती सत्यम योग्यम राधा भगिनी वो मम मनसि मनसस्य मनसि विचारेण अन्यलोकानां परिणामम् अभवत् तत्कारणं सदैव शोभनं विचारं करणीयम् आं किमपि अशुद्ध विचारणं न चिन्तयामः इति प्रयत्नं कुर्मः इति तत्र hmm. शुचित्वं शुचित्वं शरीरस्य शुचित्वं मनसः शुचित्वं hmm. शुद्धविचारः शुद्धविचारः सदा सर्वदा सत्यं hmm. योग्यं hmm. बहु सम्यक् अधुना बीला भगिन्याः अवसरः श्यामलाभगिनी मीणा भगिनी एकमेकं थिन्किङ्ग् एस्टिव् ओट् And while addressing people, we have to यदा वयं समाजे वा तत्र जनेषु यदा वयं गच्छामः परन्तु तत् तदा कदा एतत् सर्वं bhavati स्वयम् asmakam दिनचर्यायाम् eva तस्य vayam yada तस्य अङ्गीकुर्मः दिनचर्यायाम् एव तत् सदाचारान् eva मनसि स्थापयामि तदा एव यदा जनेषु वयं गच्छामः तदापि तत् सद्विचारान् एव अस्माकं समीपे आगच्छन्ति तदा एव अस्माकम् आचरणं तथैव भवेत् इति अस्ति योग्यं विणा अस्तु धन्यवादः भगिनि वीणा भगिनी वदति वा हा मनः अति चञ्चलम् अस्ति इतोपि सर्वदा सद् सद, सद्भावं भवेत् hmm. दुर्विचारं न भवेत् इति hmm. सत्यं सदा सदा इति महत्त्वपूर्ण अस्तु योग्यं गीताञ्जलि भगिनी उक्त भारतमहोदये वदतु hmm. सद्विचार सद्विचारणं सदाचरणं करोति तर्हि तर्हि गुड् वर्क् शुद्ध आचरणं शुद्धं शुद्धं कार्यं योग्यं कार्यं कार्यं करिष्यति आचरणेन शुद्ध आचरणेन शुद्धविचारेण विचारैः शुद्धविचारैः शुद्धं कार्यं करणीयम् इति योग्य योग्य अत्र एकः तत्र विचारः एतदस्ति मनसि किमपि चिन्तयतु परन्तु तस्य परि परिमाणं तस्य परिणामं किं भवति तत् अन्येषां मनसि अपि वा स्वस्य मनसि अपि सद्विचाराणां परिणामम् उत्तमम् अस्ति कुविचाराणां परिणाम कदापि उत्तमं नास्ति तत् हानिकारकम् एव इति सत्यं डेफिनेट्लि अस्तु बहु समीचीनमस्ति वयमत्र स्थगयामः सर्वेषां धन्यवादाः पुनर्मिलामः अस्तु धन्यवादानी वयं समापयामः शान्तिमन्त्रं वदति वा सर्वे भवन्तु सुखिनः सर्वे सन्तु निरामयाः सर्वे भद्राणि पश्यन्तु मा कश्चित् दुःखभाग् भवेत् अथ तोमा सद्गमय तमसोमा ज्योतिर्गमय मृत्योर्मा अमृतम् गमय ओम् पूर्णमदः पोर्णमिदम् पूर्णात्पूर्णमुदच्छते पोर पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते ॐ शान्तिशान्तिशान्तिः हरिः ॐ श्रीगुरुभ्यो नमः हरिः ॐ धन्यवादः धन्यवादः धन्यवादः